ॐ ध्यायामोदलाभकुण्ठनवधीम् तेजोमहीम् नैष्ठिहीम् स्निग्धापाङ्कविलोकिनीम् भगवतीम् मन्धस्मितश्रीमुखीम् वात्सल्यामृतवर्षिणीम् सुमधुरम् अङ्गीर्तनालापिनीम् श्यामाङ्गीम् मधुसिक्तसूक्तिम् अमृतानन्दात्मिकाम् ईश्वरी ओम् अमृतेश्वर्यै नमः ओम् अमृतेश्वर्यै नमः ओम् अमृतेश्वर्यै नमः ओम् गणाना आम् त्वा गणपतिकम् हवामहे कविम् कवीनामुपमश्रवस्थमम् ज्येष्ठराचम् ब्रह्मणाम् ब्रह्मणस्पत आनः शृण्वन् उदिभिः सीदसादनम् ओम् महागणपतये नमः प्रणो देवी सरस्वती वाचेभिर्वाचिनीवती धी नाम नमः Shall we we start together from Adhatmanam till whatever we learned last time, which is uh, uh, right? We'll stand slowly and let's see how धात्मानम् टिल् विस्टा स्लोलि ओम् अथात्मानं शिवात्मानं श्रीरुद्ररूपं ध्यायेत् शुद्ध स्फटिकसङ्काशं विनेत्रं पञ्चपत्रकं गङ्गाधरम् दशभुजम् सर्वाभरणभूषितम् नीलग्रीवम् शशाङ्काङ्कम् नाकयज्ञोपवीतिनम् व्याघ्रचर्मोत्तरीयम् च वरेण्यमपयप्रथम् कमण्डल्वक्षसूत्राणाम् धारिणम् शूलपाणिनम् ज्वलन्तम् पिङ्कलजटा शिखामुद्योधारिणम् वृषस्कन्धसमारूढम् उमादेहार्धारिणम् अमृतेनाप्लुतम् शान्तम् दिव्यभोगसमन्वितम् दिग्देवतासमायुक्तम् सुरासुरनमस्कृतम् नित्यम् च शाश्वतम् शुद्धम् ध्रुवमक्षरमव्ययम् सर्वव्यापिनमीशानम् रुद्रम् वै विश्वरूपिणम् एवम् ध्यात्वाद्विजः सम्यग् तथो यजनमारभेत् ओके फर् एवरिबडि प्रजनने ब्रह्मा तिष्ठतु पादयोर्विष्णुस्तिष्ठतु हस्तयोर्हरस्तिष्ठतु बाह्वोरिन्द्रस्तिष्ठतु जठरे अग्निस्तिष्ठतु हृदये शिवस्तिष्ठतु कण्ठे वसवस्तिष्ठन्तु वक्त्रे सरस्वती तिष्ठतु नासिकयोर्वायुस्तिष्ठतु नयनयोश्चन्द्रादित्यो तिष्ठेताम् कर्णयोरश्विनौ तिष्ठेताम् ललाडे रुद्रास्तिष्ठन्तु मूर्दन्यादिस्त्यास्तिष्ठन्तु शिरसि महादेवस्तिष्ठतु शिखायाम् वामदेवस्तिष्ठतु पृष्ठे पिनाकी तिष्ठतु पुरतः शूली तिष्ठतु पार्श्वयोः शिवा शङ्करो तिष्ठेताम् सर्वतो वायुस्तिष्ठतु ततो बहिः सर्वतोग्निर्ज्वाला माला परिवृतस्तिष्ठतु सर्वेष्वङ्गेषु सर्वा देवता यथास्थानम् तिष्ठन्तु माम् रक्षन्तु सर्वान् महाजनान् रक्षन्तु अग्निर्मे वाचिश्रितः वाघृदये हृदयम् मही अहममृते ए अमृतम् ब्रह्मणि वायुर्मे ए प्राणे प्राणो हृदये हृदयं मही अहमृते ए अमृतम् ब्रह्मणि सूर्यो मे चक्षुषि श्रुतः चक्षुर्हृदये हृदयं मही अहमृते ए अमृतम् ब्रह्मणि मनसि श्रुतः मनोहृदये हृदयं मही अहमृते ए अमृतम् शोमे श्रोत्रे ए श्रिताः श्रोत्रघुम्हृदये मही अहमृते ए अमृतम् ब्रह्मणि आपोमे रेतसि श्रिताः रेतो हृदये मही अहमृते ए ब्रह्मणि हृदि शरीरे श्रिता शरीरघुं हृदये हृदयं अहमृदे ए अमृतम् ब्रह्मणि ओषधिवनस्पतयो मे लोम सुश्रिताः लोमानि हृदये हृदयम् मही अहमृदे ए अमृतम् ब्रह्मणि इन्द्रो बले ए श्रुतः बलगुम्हृदये हृदयम् मही अहमृदे ए ब्रह्मणि पर्जन्यो मे मूर्धा हृदये हृदयम् मयि अहमृदे ए अमृधम् ब्रह्मणि ईशानो मे मन्युः श्रुतः मन्युर्हृदये हृदयम् मयि अहमृदे ए अमृतम् ब्रह्मणि आत्मा आत्मनि श्रुतः आत्मा हृदये हृदयं मयि अहमृदे ए अमृतम् ब्रह्मणि पुनर्म आत्मा पुनरायुरागा आत् पुनः प्राणः पुनरागोदमागा आत् वैश्वानुरो रश्मिभिर्वा वृधानः अन्धस्तिष्ठत्वमृतस्य गोपाः सर् ओके फ़र् एव्रिबडी ओके प्रोसीड् नेक्स्ट् वन् अस्य श्रीरुद्राध्यायप्रश्नमहामन्त्रस्य अघोरऋषिः अनुष्टुप्छन्दः सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता नमः शिवायेति बीजम् शिवतरा येदि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 सर्वक्रत्वात्मने करतलकरपृष्ठाभ्याम् नमः अग्निहोत्रात्मने हृदयाय नमः दर्शपूर्णमासात्मने शिरसे स्वाहा चातुर्मास्यात्मने शिखायै वषट् निरूढपशुबन्धात्मने कवचाय हुम् ज्योतिष्टोमात्मने नेत्रयाय वौषट् सर्वक्रत्वात्मने अस्त्राय फट् भुवस्वरो भूर्भुवस्वरोमिति दिग्बन्धः नेक्स्ट् वन् आल्सो विल्न्स् वि लर्न् स्लोलि टुगेदर् ध्यानम्भस्तलान्दभुवन ब्रह्माण्डमाविस्फुरत् ज्योतिस्फाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्दामृदैः अस्तोकाप्लुतमेगमीशमनिशम् रुद्रानुवागाञ्चपन् विप्रो वी ध्रुव सो एबडी ओके बिको यु हे गोट्लीस् एस्ट मी आई कुड नोटलो मेनी थिङ्ग् आई नो अबौट दी अदर्श I asked so, how the speed and nobody said anything and then I had to adjust I I, I kept saying I don't think you heard that's why I had to go back out and I came I, for me I don't know I think the others are shops to say if I'm the only one then I I'm okay I'll practice it slowly later but I found you very very very fast Can everybody else hear me Yes uh hi yes yeah. yeah we can hear you Hey, okay can anybody uh, if did you find this fast or this pace is okay for all of you this was fast <laughs> so when i asked how come nobody said anything now i thought maybe because i'm mr class harry i thought yeah. that i am feeling that way so i didn't yeah. want to interrupt i have not mr class but i found this uh, really so fast that i could not even follow it Okay, so, okay. Okay, then Sujala, why don't you chant from the <laughs> the, beginning me? You chant from the beginning till whatever we learned the last class? <laughs> Slowly, I didn't, okay. Uh, okay, I'll start. Om ओम् Shri Rudra श्रीरुद्ररूपं Dhyayet शुद्धस्फटिकसङ्काशम् त्रिनेत्रम् पञ्चवक्त्रकम् गङ्गाधरम् दशभुजम् सर्वाभरणभूषितम् नीलग्रीवम् शशाङ्काङ्कम् नागयज्ञोपवीतिनम् व्याघ्रचर्मोत्तरीयम् च वरेण्यमभयप्रदम् कमण्डल कमण्डल् कमण्डल् वक्षसूत्राणाम् इस् न श्रुत कमण्डल् वक्षसूत्राणाम् कमण्डल् वक्षसूत्राणाम् धारिणम् शूलपाणिनम् ज्वलन्तम् पिङ्गलजटा शिखामुद्योतधारिणम् वृक्षस्कन्धसमारूढम् वृषस्कन्धमसमारूढम् उमादेहार्तधारिणम् अमृतेनाप्लुतम् शान्तम् दिव्यभोगसमन्वितम् दिग्देवतासमायुक्तम् सुरासुरनमस्कृतम् नित्यम् च शाश्वतम् शुद्धम् ध्रुवमक्षरमव्ययम् सर्वव्यापिनमीशानम् रुद्रम् वैविश्वरूपिणम् एवम् ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत् प्रजनने ब्रह्मा तिष्ठतु पार्दयोर्विष्णुस्तिष्ठतु हस्तयोर्हरस्तिष्ठतु बाह्ोरिन्द्रस्तिष्ठतु बाह्वोरिन्द्रस्तिष्ठतु जठरेऽग्निस्तिष्ठतु हृदये शिवस्तिष्ठतु कण्ठे वसवस्तिष्ठन्तु वक्त्रे सरस्वती तिष्ठतु नासिकयोर्वायुस्तिष्ठतु नयन नयनयोश्चन्द्रादित्यौ तिष्ठेताम् कर्णयोर् कर्ण कर्णयोर्श्विनौ तिष्ठेताम् कर्णयोरश्विनौ तिष्ठेताम् कर्णयोरश्विनौ तिष्ठेताम् ललाटे रुद्रस्ति ललाटे रुद्रास्तिष्ठन्तु मूर्ध्यादित्यास्तिष्ठन्तु शिरसि महादेवस्तिष्ठतु शिखायां वामेव देवस्तिष्ठतु पृष्ठे पिनाकी तिष्ठतु पुरतः शूलितिष्ठतु पार्श्वयो शिवाशङ्करौ तिष्ठेताम् सर्वतो वायुस्तिष्ठतु ततो बहिः सर्वतोऽग्निर्ज्वालामाला परिवृतस्तिष्ठतु सर्वेष्वगुम् सर्वेष्वङ्गेषु सर्वाम् देवता यथास्थानं तिष्ठन्तु मां रक्षन्तु सर्वान्तु महाप्राणार्था ओके तिष्ठतु वितौ अग्निर्मे वाचि श्रुतः वाघृदृतये वाघृधये वाघृधये हृदयम् मयि अहम् अमृते अमृतम् ब्रह्मणि वायुर्मे प्राणे णोहृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि सूर्यो मे चक्षुषिश्रुतः चक्षुर्हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि चन्द्रमा मे मनसिश्रुतः मनोहृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि दिशो मे दिशो मे श्रोत्रे श्रुताः श्रोत्रगुंहृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि आपो मे रेतसिश्रुताः रेतो हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि कृतमीमे शरीरे श्रुताः शरीरगि ओ पृथिवी मे शरीरे श्रिता शरीरगुं हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि ओषधि ओषधि वनस्पतयो ओषधि वनस्पतयो मे लोम सुश्रिताः ओषधि वनस्पतयो मे लोम लोमानि लो हृदये ृदयं मयि अहमृते हृदये लोमानि हृदये लोमानि हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि इन्द्रो मे बले बले श्रुतः हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि पर्जन्यो मे मूर्निश्रुतः मूर्धा हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि ईशानो मे मन्यो श्रुतः मन्योहृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि आत्मा आत्मनिःश्रुतः आत्माहृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि पुनर्म आत्मा पुनरायुरागा आत् पुनः प्राणपुनराकूतमागा आत् वैश्वानरो रश्मिभिर्वावृधानः अन्तस्तिष्ठत्वमुस्तिष्ठ अस्य श्रीरुद्राध्यायप्रश्नमहामन्त्रस्य श्री अघोरऋषिः अनुष्टुप् चन्दः सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्य परमपुरुषस एष रुद्रो देवता नमः शिवायेति बीजम् शिवतरायेति शक्तिः महादेवायेति किलकम् श्रीसदा शिवप्रसादसिद्ध्यर्थे जपे विनियोगः अस्य श्रीरुद्राध्यायप्रश्नमहामन्त्रस्य अघोरऋषिः अनुष्ठुच्छन्दः ूर्तिस्वरूपो योसावादित्येवता स्लोर् अस्य श्री रुद्राध्यायप्रश्नमहामन्त्रस्य अघोरषिः अनुष्टुप्छन्दः सङ्कर्षणमूर्तिस्वरूपो योऽसावाधित्यः परमपुरुषः स एष देवता नमः शिवायेति बीजम् शिवतरायेति शक्तिः महादेवायेति कीलकम् श्रीसाम्बसदा शिवप्रसादसिद्ध्यर्थे जपे विनियोगः ओम् अग्निहोत्रात्मने अङ्गुष्टाभ्याम् नमः दर्शपूर्णमासात्मने तर्जनीभ्याम् नमः चातुर्मासात् मासात्मने मध्यमास्यात्मने चातुर्मास्यात्मने मध्यमाभ्याम् नमः निरूढपशुबन्धात्मने अनामिकाभ्याम् नमः ज्योतिष्टो मा ज्योतिष्टोमात्मने कनिष्ठिकाभ्याम् नमः सर्वकृत्वात्मने करतलकरपृष्ठाभ्याम् नमः ओके सर्वक्रत्वात्मने करतलकरपृष्ठाभ्याम् नमः अग्निहोत्रात्मने हृदयाय नमः दर्शपूर्णमासात्मने शिरसे स्वाहा चतुर्मास्यात्मने शिखायै वषट् वषट् चतुर्मास्यात्मने चातुर्मास्यात्मने शिखायै वषट् निरूढपशुबन्धात्मने कवचाय हुं ज्योतिरोतिष्टोमात्मने नेत्रयाय वौषट् वौषट् सर्वकृत्वात् ओके सर्वक्रत्वात्मने अस्त्राय पठ् भूर्भुवस्वरोमिति दिग्बन्धः ध्यानं आपातालनभस्थलान्तभुवन ब्रह्माण्ड मा विस्फुरत् ओके okay. आपातालनभस्तलान्तभुवनब्रह्माण्ड मा विस्फुरत् ज्योतिस्पाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतैः रुद्रामु नुवाकाञ्जपन् ध्याये दीप्सितसिद्धये ध्रुवपदं विप्रोभिषिञ्चेच्छिवम् you would want to try till uh, whatever they practiced or feel confident sarla you did last Confid time right yes you want to try one more time or oh, from the beginning yeah okay tell how are you comfortable with okay then i will know wherever the, you are not comfortable we'll start to practice it from there onwards again so that's why i'm asking people to uh, tell me where till, till they are are comfortable oh, okay so from the beginning you want me to try or uh, if you are comfortable and, and you are okay then we can go forward but if you just think you want me yeah. to try once so, and then if you want me to correct anything then uh, go for the beginning that's all okay ओम् अतात्मानम् शिवात्मानम् श्रीरुद्ररूपम् ध्यायेत् सुप्तस्फटिकसङ्कासम् त्रिनेत्रम् पञ्चवक्त्रकम् गङ्गाधरम् दश भुजम् सर्वाभर दश भुजम् सर्वाभरणपूषितम् नीलग्रीवम् शशाङ्काङ्कम् नागयज्ञोपवीतिनम् व्याघ्रचर्मोत्तरेण्यरेण्यम् अभयप्रदं बिकोदर्रेण्यम् अभयप्रदं वरेण्यं प्लस् आम् अभयप्रदं बिकम् अ ओके वरेण्यमभयप्रदम् मण्डलवक्षसूत्राणां दारिणम् सूलपाणिनम् ज्वलन्तं पिङ्कलज्जटा शिखामुद्योतदारिणम् वृषस्कन्दसमारूढम् उमादेहार्दारिणम् अमृतेनाप्लुतं सान्तं दिव्यभोगसमन्वितं दिग्देवता मस्कृतं नित्यं चाश्वतं शाश्वतं शुद्धं ध्रुवमक्षर ीषाणम् रुद्रं वै विश्वरूपिणम् एवं ध्यात्वा द्विज संयुक् ततो, यजना मारभेद, यजना मारभेद, यजना मारभेद। यजना मारभेद, ततो प्रजनने। जनने ब्रह्मास्तिष्ठतु पादयोर्विष्णु तिष्ठतु हस्तयो बाह्वोर् इन्द्रातिष्ठतु बाह्वोर् बाखो। बा, इन्द्रा इन्द्रस्तिष्ठतु बाह्वोर् इन्द्रस्तिष्ठतु जठरे अग्निस्तिष्ठतु हृदये शिवस्तिष्ठतु कण्ठे तिष्ठन्तु वक्त्रे सरस्वती तिष्ठतु नयनयो नयनयोश्चन्द्रादित्यौ तिष्ठेतां कर्णयोर् कर्णयोर् अश्विनौ तिष्ठेतां ललाटे रुद्रा तिष्ठन्तु रुद्रास्तिष्ठन्तु रुद्रा तिष्ठन्तु दित्या तिष्ठन्तु शिखायां वामदेवस्तिष्ठतु पृष्टे पिनाकी तिष्ठतु पुरतः चूली तिष्ठतु पार्श्वेताम् सर्वतो वायुतिष्ठतु ततो बहि बहिः सर्वतो अग्निर्ज्वाला मालापरि माम् रक्षन्तु अग्निर्मे चि श्रितः वाहृदये हृदयंमयि अहमृते अमृतं ब्रह्मणि वायुर्मे प्राणे श्रुतः प्राणो हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि सूर्यो मे चक्षुषी श्रुतः चक्षुर्हृदये हृदयंमयि अहमृते अमृतं ब्रह्मणि चन्द्रमामे मनसि श्रुतः मनो हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि दिशो मे श्रोत्रे दिशु दिशो मे हृदये हृदयंमयि अहमृते अमृतं ब्रह्मणि आपो मे रेतसी हृतः आपो हृ हृताः रेतो हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि पृथिवी मे सरीरे श्रिता हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि ओषधिवनस्पतयो मे लोमसु लो श्रुतः श्रुताः लोमानि हृदये हृदयंमयि अहमृते अमृतं ब्रह्मणि इन्द्रो मे भले धृतः बलगुंहृदये हृदयंमयि अहमृते अमृतं ब्रह्मणि पर्जन्यो मे मूर्ध्नि श्रुतः मूर्धाहृदये हृदयंमयि अहमृते अमृतं ब्रह्मणि ईषानो मे मन्यो श्रुतः मन्युर्हृदये हृदयम्मयि अहमृते अमृतं ब्रह्मणि आत्मा आत्मनि सृतः आत्मा हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि पुनर्म आत्मा पुनरायुरागात् पुनःप्राणः पुनराकूतमागात् वैश्वानरो रश्मिभिर्वा ब्रद, ब्रद, ब्रदा, ब्रदान रश्मिर्वा वृधानः अन्तस्तिष्ठतस्य गोपाः Rud, rudra rudra As, uh, whether अश्री रुद्रास् बाटम् आन् टाप् सो दर् आर्कार सरस्वती सा Then there is okay. a shakara, which is uh, a Shiva, Shah or a Sharanam Shah. There is a shakara, which is Shandmukha. Okay, so there are three, okay. which, which all of the three will be written with an S with uh, some things in English. So, if you look at the Devanagari, it will be a little easier. In this case, okay. Asya okay. Shri Rudhradhyaya Prasna Maha Mandra is here. Oh, Asya Shri Rudhradhyaya Rudhradhyaya. हामन्त्रस्य अघोरऋषिः अनुष्टुप्छन्दः शङ्कर्षणमूर्ति स्वरूप स्वरूपयोसावादित्य परमपुरुषसा एषा रुद्रो देवता नमः शिवायेति बीजम् शिवतरायेति शक्तिः महादेवायेति कीलकम् त्रीसाम्बसदाशिवाप्रसाद्या प्रसादसिध्यते जपे इच्छर्ते ॐ अग्निहोत्रात्मने अङ्गुष्ठा दर्शपूर्णमासात्मने सर्जनि चातुर्मास्यात्मने मध्य माभ्यां नमः निरुडपशुबन्धात्मने अनापि अनामिकाभ्यां नमः ज्योतिष्टोमात्मने कनिश्चिकाभ्यां नमः सर्वकृत्वात्मने करतलकरपृष्टाभ्यां नमः अग्निहोत्रात्मने हृदयाय नमः दर्शपूर्णमासात्मने सिरसे स्वाहा चातुर्माश्यात्मने शिकाये वषट् निरुढपशुबन्धात्मने कवचाय हुं ज्योतिष्ठोतात्मने नेत्र्योतिष्ठो मात्मने, मात्मने नेत्र्याय वौषट् सर्वकृत्वात्मने अष्ट्राय अस्त्राय पट् भूर्भुवस्वर् भूर्भुवस्वरोमिति दिग्बन्धः आपातालनभस्थलान्तभुवनब्रह्माण्डमाविस्फुरट् ज्योतिस्पटिकलिङ्गमौलीविलसत् वान्ता अष्टोका वान्तामृतैः अष्टोकाप्लुतमेकमीशमणिशं रुद्राणु वा रुद्राणु वाकाञ्जपन्न वाकाञ्जपन्न इह वा इह वाकाञ्जपन्न वाका वाकाञ्जपन्न अष्टोकाप्लुतमेकमेषमनिषम रुद्राणु वा वाकाञ्जपन्न ज्ञाये इन्न ओके okay, नोट इन्न इन, इन्न लकारः ओ वाकाञ्जपन्न वाकाञ्जपन्न इन्न ओके नोट इन्न Okay. udra nu dranu pancha pancha pan japan. japan in japan okay japan in japan. Japan. Japan. japan not in in in, in. a ta ta na okay na nakara vibh okay not ta ta na your tongue should be okay. touching your teeth not the, the, the top of your mouth not like vagan japan will be the tongue will be touching the top roof of your mouth ध्रुव इङ्ग्लिश् वर्ड् हपन्स्टैम् Letters together, we don't know which one to say. It will be either a C-H, it will be Cha or Cha uh, or something like that, so. Okay, uh, uh, I'm just writing that uh, Sanskrit also by the side, so that pronunciation is correct. Yeah, after a while, you just look at the, the Sanskrit uh, um, letters, which is easier. Once you know what has to be said, then you know it, whether it's oh. actually, it's a Da or a Dha or Tha and things like that will so be a little easier. okay uh, that's it right then the, the yeah. next one you are going to... that's correct yeah so shall we through the next two, four lines also today then at least we'll have run something new okay yes okay i'll say once you repeat twice brahmanda vyapt deha uh -huh. brahmanda vyapt deha ण्ड व्याप्तदेहा भसित हिमरुचा भसितमानाभुजङ्गैः भासमानाभुजङ्गैः भासमानाभुजङ्गैः कण्ठे कालाः कण्ठे कालाः कण्टे कालाकलित शशिकला शशिकला, शशिकला चण्डकोदण्डहस्ताः चण्डकोदण्डहस्ताः चण्डकोदण्डहस्ताः तृक्ष्या रुद्राक्षमाला द्रक्ष्या रुद्राक्षमाला द्रक्ष्या रुद्राक्षमाला प्रकटित विभवा प्रकटित विभवा प्रकटित विभवा शाम्भवा मूर्तिभेदाः शाम्भवा मूर्तिभेदाः शाम्भवा मूर्तिभेदाः रुद्रा श्री रुद्रसूक्त रुद्राश्रीरुद्रसूक्त विभवा प्रकटितविभवा नः न प्रयच्छन्तु सौख्यं नयच्छन्तु नः प्रयच्छन्तु सौख्यं नः प्रयच्छन्तु सौख्यम् If you don't say if sound, the meaning will be different, okay? Okay. So, naprayacchant saukyam means don't give us saukyam. Okay. Naprayacchant saukyam means give us saukyam, okay? Oh, thank you. Naprayacchant yeah. saukyam. Naprayacchant saukyam. Naprayacchant saukyam. Naprayacchant saukyam. Naprayacchant saukyam. Okay. Naprayacchant saukyam. So, I'll just do one line at a time and you repeat twice, okay? Mm-hmm. Khandhe ka lah. शिकला छन्द कोदण्ड ओ सोरिस्मरुचा भासमाना भुजङ्गैः ब्रह्माण्ड व्याप्तदेहा भसित हिमरुचा भासमाना भुजङ्गैः ब्रह्माण्ड व्याप्तदेहा भसित हिमरुचा भासमाना भुजङ्गैः कण्ठे कालाः कपर्दाशिकलाण्डकोदण्डहस्ताः काला कपर्दा कलितशिकला छण्डकोदण्डहस्ताः कण्ठे काला कपर्दा कलितशिकला क्ष्या रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभेदाः तृक्ष रुद्राक्षमालाः प्रकटितविभा शाम्भवा विभवाः शाम्भवा मूर्तिभेदाः वन्स् मोर् चले तृक्षा रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभेधाः रुद्रा श्रीरुद्रकटितम् रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम् रुद्रा सं ये लेट् येट् लेट् वट हेयरीस्ट् अ स्पीड स्लो 3 व्याप्त देहा हिमरुचा भासमाना ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमानापुजङ्गैः कण्डे कालाः कबर्दाकलितशिकलाश्चण्डकोदण्डहस्ताः प्रक्ष्या रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभेदाः रुद्राश्रीरुद्रसूक्त प्रकटित विभवा सौख्यम् यच्छन्तु ऐ फ़् इण्ट् आफ़् दिस्पक्सिट् नो यु केक्टिस्ट् i can do it uh, okay and try and hurry it's not right a... right the thing is it's okay to make mistakes i don't know why people are afraid we don't make mistakes we will you learn right it's like yeah. uh, riding a bike or anything right so maybe you'll do, do fall couple of times but it doesn't matter okay so you okay. have to get back up and do it again brahmanda vyaptadeha basita himaruja bashamana bujangaihi कण्ठे काला कपर्धा कलितशिकला चण्डकोदण्डहस्ताः त्र्यक् त्रक्ष्या रुद्राक्षमाला प्रकटितविभवा शाम्भवा मूर्तिभेदाः रुद्रश्री रुद्रा रुद्रा श्रीरुद प्रकटित विभवा ब्रह्माण्ड व्याप्ता देहा बसित ुजङ्गैः कंटे काला कपर्द कपर्दा कलीता, कलीता ससिकला रुद्राक्षमाला रुद्राक्षमाला प्रकटितविभ विभवा साम्भवा मूर्तिभेदाः रुद्रा श्री रुद्रा सुप्ता प्रकटितविभ विभवा ौण्ड् ओके नफ् प्रयच्छन्तु इोट् दर्े न बटर्स् ए टु डाट् देर् सो इच्छन्तु सौख्यं ओके सौख्यं सौख्यं देट् वट् इट मीन् ओके Oh, nuf okay, prayachund okay. means for us nuf means for us naha okay. okay so that's why because nuf prayachund means don't give okay. so the site difference oh. in nuf and na okay so okay nuf prayachund to some anybody else want to try try i can try ब्रह्माण्डव्याप्तदेहाभसितहिमरुचा भासमाना भुजङ्गैः कण्ठे कालाः कपर्द कपर्दाकलित कपर्दाकलितशिकलाश्चण्डकोदण्डहस्ताः त्र्यक्षा रुद्राक्षमाला प्रकटित विभवा शाम्भवा मूर्तिभेदाः रुद्रा श्रीरुद्र सूक्त प्रकटित विभवा नप्रयच्छन्तु सौख्यं ओके येट वी विल सोंट ट्राई शल वी डू दिस टुगेदर ध्यानम आपाताळे टूल वडवर विल ऑन टुडे यस ओके विल डू इट टुगेदर 1 2 3 भुवनविस्फुरत् नमा ज्योधिः पाटिकलिङ्गमौलिकिलसद्पूर्णेन्दुवान्तामृतैः अस्तोकाप्लुतमेकमीशमनिशम् रुद्रानुवाकाञ्चपन् ध्याये दीप्सितसिद्धये ध्रुवपदम् विप्रो विषिञ्चेच्छिवम् ब्रह्माण्डव्याप्तदेहाभसितहिमरुचा भासमानाभुजङ्गैः कण्डे कालाः कबर्दाकलितशिकलाश्छण्डकोदण्डहस्ताः द्रक्ष्या रुद्राक्षमालाः विभवा मूर्ति भेदाः रुद्रा श्रीरुद्रूक्तन्तु इस् नाङ्गर् बट् इोट् दिफिकल् इस् बिका मोस्ट् आफ़् दर्ड् वि rudraksha mala rudra saukhem all these things are known words so so um let us stop here i'll send the recording and then maybe next week we can do uh, till uh, here and then uh, the other one is you see the next one is so only gana namtwa okay so that we already learned and after that becomes the shanti pada which is a part of uh, chamakam so um, if we can uh, learn up to whatever we learn today i think it's will uh, be pretty good can we practice one paragraph of the rudram every day one you want to practice it today no i need uh, whenever everybody else wants it every day every class can we practice at least one paragraph Yeah, some people haven't learned it before, so. Okay, but whoever has learned, if we can just do one paragraph. Yeah, find out who has learned and then we can do it in this class. Is there anybody else who has learned it before? Okay. <clears> okay. <throat> i mean if we have not learned then it might be difficult to practice right so okay because i think uh, somebody i don't know who it was said if we can practice it up until shivaratri that will be good that will be good but the thing is nobody who has learned it before us is coming so okay so, so uh, you, you can practice i can listen it no the, nobody has uh, is here was learned at last time so <laughs> it doesn't make sense to practice that's what i'm saying okay so uh, if uh, those people who learned last time are here then it makes me no sense to practice so i send the recording of the rudram so people can listen to it okay and then we can try to follow the same thing whenever we meet so i just tell people to bring or just scan it and keep it in their phone so whenever we are chanting we have a, a copy with us so so will you start the rudram after the lagunyasah yeah the idea was to uh, see the other people would come so we so some of us will chant like last year uh, rudram so i'm no I'm, i'm talking in the class uh, will you will you continue after the nyasa rudram yeah we'll continue the rudram or we'll continue something else oh please continue rudram i haven't learnt so it will be nice no no no the, i'm just saying you know there are other uh, Uh, sootras you can learn as well which is little easier so if you want so that is one thing so uh, or if you want to learn rudram we can do that either way it's for me it's okay so there is yagnini uh, what what Rasha do you suktam, think yagnini meedhasukta uh, more those things are there so um uh, i'll okay give it any things sujatha <laughs> there's one more person who is not speaking can can they also say i don't know who that is I think it's Sanjay. <laughs> yeah, this is Sanjay here. This is my first class, I'm not sure. So, gotcha. uh, just listening and just uh, getting familiar so with the you, whole thing. Do you want to learn the Rudram after the Lagun Yasam or some other or it's okay? Uh, what are the majorities? I, I was, uh, yeah, Rudram is fine too. I mean. <laughs> I'm a beginner so I'm, I'm open to it. <laughs> okay. So, then you decide, I think, uh, Sarla and I would like to uh, rutram but i think uh, you decide based on hurry uh, uh, okay what do you think we are capable of it's not capable everybody is capable of all these things okay it just takes time that's all so nothing is impossible it's like uh, learning to say something new you have to practice it for a while and it will come yeah it be nice If you take take Rudram, Rudram. Okay. we can learn. Okay, we'll take Rudram. Okay, we'll so let's do the uh, closing prayers. क्लोसिङ्ग् प्रेयर्स् close today. Om समस्ताः क्लोस् टुडे ओम् लोकाः सुख्नो भवन्तु भवन्तु ोकाः समस्ताः सुखिनो भवन्तम् ओम् शान्तित्यं शान्ति ॐ श्रीवक्षोपनमः हरिः ओ